तस्य यज्ञस्य समयः स्वाधीनक्षत्रसम्पदा साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः दर्वीहोमानुपादाय सर्वाण्यः प्राप्नुते क्रतून् अभिषेकम् च यस्यान्ते सर्वदित्तेन चोच्यते समर्थोऽसि महाबाहो सर्वे ते अविचार्य महाराजाराजसूये मनः कुरु इत्येवम् सुहृदः सर्वे पृथक् च सह चाब्रुवन् सधर्म्यम् विशाम्पते धृष्टमिष्टम् वरिष्ठम् च जग्राहमनसारिहा श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः पुनः पुनर्मनो दध्वे राजसूयाय भारत स भ्रातृभिः पुनर्धीमा नृत्विग्भिश्च महात्मभिः मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवीत् युधिष्ठिर उवाच इयं या राजसूयस्याम्राडर्हस्य सुक्रतोः श्रद्दधानस्य वदतः स्पृहा मे सा कथम् भवेत् वैशम्पायनुवाच एव मुक्तास्तु ते तेन राज्ञा राजीवलोचन इदमूचुर्वचः काले धर्मराजम् युधिष्ठिरम् अर्हस्त्वमसि धर्मज्ञाराजसूयम् महाकृतम् अथैव मुक्तेन्दृपता